मार्कण्डेयपुराणम् अध्यायं हण्ड्रेड् एण्ड् सिक्स् भगवन् क्रौस्तुगिरुवाच भगवन्कथितः सम्यग्भानो सन्ततिसम्भवः माहात्म्यमादिदेवस्य स्वरूपं चादिविस्तरात् भूयोपि भास्वदः सम्यग्माहात्म्यं मुनिसत्तम श्रोतुमिच्छाम्यहं तन्मे प्रसन्नो वक्तुमर्हसि मार्कण्डेय उवाच श्रूयदामादिदेवस्य माहात्म्यं कथयामि विवस्वदो विभस्वदो यच्चकार पूर्वमाराधितो जनैः दम से पुत्रो विख्याज्यवर्धन स सम्यपा लक्रे पृथिव्या पृथिवीपति धर्मद पाल्यन तो्रमत्म ववृदेनुदीन विप्रजन चन च हृष्टपुष्टमदीवासी तस्मिन् राजन्यशेषतः निर्भयः सकलश्चोर्व्याम्पौरजानपदो जनः नोपसर्गो न च व्याधिर्न च व्यालोद्भवं भयं न चावृष्टिभयं तत्र धमपुत्रे महीपदौ सयीजे च महायज्ञैर्दौ दानानि चार्थिनां सुधर्मस्याविरोधेण बुभुजे विषयानपि तस्यैवं कुर्वतो राज्यं सम्यक् पालयतः प्रजाः सप्तवर्षसहस्राणि जग्मुरेकमहर्यथा विदूरथस्य तनया दाक्षिणा से भूद तय पत्नी बूवाधमा नाम मदाचि सािभ्यंजनाद्यदराजलोक मानिनी तदश्रुबिन्दवो गात्रे यदा तस्य महीपदेः तदा वीक्ष्याश्रुवदनां तामपृच्छदमानिनीं निःशब्दमश्रुमोक्षेण रुदन्तीं तां विलोक्य वै किमे ददिति राज्यवर्धनः पृष्टा साधु ततस्तेन भर्त्रा प्राहमनस्विनी न किञ्चिदिति ताम्भूयः पप्रच्छस महीपतिः सुमध्यमा न होवाच सा भूयो राज्यवर्धनम् कि दिधि पानी पार्थिव पुनः बहुशिदातेन साम्स फलिदेशातरोव यह पश्येदि किमु कारण ममादिमन्दग्याय जहासाधनृपस्ततः सविहस्याः तां पत्नीं शृण्वतां सर्वभूभृतां पौराणां च महीपाला ये तत्रा सन् शोकेनालं विशालाक्षि रोदितव्यं न दे शुभे जन्मर्द्धि परिणामाद्या विकारास् सर्वजन्तुषु अधीता सकला वेदा इष्टा यज्ञा सहस्रशः दत्तं द्विजानां पुत्राश्च समत्पन्ना वरान भुक्ता भोगस्तया साध मतरादिदुर्लभा सभ्यंज पालिदा पृथ्वी शौर्य युद्धेशनुष्ठ मित्रैर्हसीद विहृत च वना किम भद्रे फलिभ्यो बिभेशियं कलिदयु मे शुभे शैथिल्य मेधुमे कामी मनिनी मूर्ध् यदर्शिद भद्रे भविद मम चिकसम तस्ह करोमि वनसंश्रयात् बाल्ये बालक्रियापूर्वं तद्वत् कौमारके चया यौवने चापि या वार्धके वनसंश्रया एवं मत्पूर्वजायर्भद्रे कृतं त्वत्पूर्वजैश्च अधो न ते श्रुपादस्य किञ्चित्पश्यामि कारणम् अलं मन्युनाभद्रे नन्वभ्युदयकारि मे दर्शनं फलितस्यास्य मारोदिर्निष्प्रयोजनं मार्कण्डेय उवाच ततः प्रणम्य तं भूपाः पौराश्चैव समीपगाः साम्ना महर्षे राज्यवर्धनं नरोदितव्यमनया रोदितव्यमनया तव पत्न्या नराधिप रोदितव्यमिहास्माभिरधवा सर्वजन्तुभिः त्वं ब्रवीषि वनवासा श्रुतं वचः पदन्ति तेन नः प्राणालालितानां त्वया नृप सर्वे यस्यामहे भूप यदियादि यादि भवान्वनं तदो शेषक्रियाहानि सर्वपृथ्वीनिवासिनां भविष्यदि न सन्देहस्त्वयि नाथ वनाश्रमे सा च धर्मोपकादाय यदि तत्प्रविमुच्यताम् सप्तवर्षसहस्राणित्वयेयं पालितामही तत्समुद्धं महापुण्यमालोकय नराधिपवने वसन् महाराजत्वं करिष्यसि तन्मही पालनस्यास्य कलां नार्हन्ति षोडशीं राजोवाच सप्तवर्षसहस्राणि मयेयं पालितामही इदानीं वनवासस्य मम कालोऽयमागतः ममापत्यानि जातानि दृष्ट्वा पत्यसन्ततीः स्वल्पैरेव महोभिर्मे ह्यन्दको न सहिष्यति यदेतत्पलितं मूर्ध्नि तद्विजानीत नागराः दूतभूतमनार्यस्य मृत्योरत्युग्रकर्मणः ोऽहं राज्ये सुधं कृत्वा भोगां वनाश्रयः तपस्तप्स्ये समायान्ति नयावद्यमसैनिकाः वध्यमसैनिकाः मार्कण्डेय उवाच तदो या सुसवनं दैवज्ञानवनीपतिः पुत्र पुत्रराज्याभिषेकाय दिनलग्नान्यपृच्छद श्रुत्वा च देतु नृपतेर्वचो व्याकुलचेतसः दिनं लग्नं च होराश्च न विधुश्शास्त्रधृष्टयः ऊचुश्च तं महीपालं दैवज्ञां बाष्पगद्गदम् ज्ञानानि नः प्रणष्ठानि श्रुत्वैतस्ते वचो नृप ततोऽन्यनगरेभ्यश्च भृत्यै राष्ट्रेभ्य एव च ततस्तस्माच्च नगरात्प्राचुर्येणाभ्युपागमन् समुत्पत्यमहीपालं तं इयासु मुने वनम् प्रकम्बिशिरसो भूत्वा प्रोचुर्ब्राह्मणसत्तमाः प्रसीदपाहिनो राजन्पालिता स्म वनाश्रये पुरा सीदिष्यत्यखिलो जगद यावज्जीवामहे वीरस्वल्पकालमिमे वयं नेच्छामच्छ भवच्छून्यं द्रष्टुं सिंहासनं विभो मार्कण्डेय उवाच इत्येवंस्तैस्तधान्यैश्च द्विजैः पौरपुरःसरैः भूपैर्भृत्यैरमात्यैश्च राजा प्रोक्तः पुनः पुनः वनवासविनिर्बन्धं नोपसंहरते यदा क्षमिष्यत्यन्धको नेदि ददौ स च तदोत्तरं तदोमात्याश्च भूपाश्च पौरवृद्धास्तथा द्विजाः समेत्य मन्त्रयामासु किमत्र क्रियदामिति तेषां मन्त्रयदां विप्रनिश्चयोऽयमजायद अनुरागवदां तत्र मही पालेद्दिधार्मिके सम्यध्यानपरा भूत्वा तपसाराध्यभास्वन्दमायुरस्य महीपतेः तत्रक का निष्ठे जिद्गे चास्कर सम्योपचारादारेरपूजन भूवा ऋग्जापेन तथा परे सामनाम च अपरे च निराहारा नदी तपांसि चक्रुरिच्छं तो भास्कराराधनं द्विजाः अग्निहोत्र पराश्चान्ये रविसूक्तान्यहर्निशं जे पुस्तत्रापरे तस्तुर्भास्करेण्यस्तदृष्टयः इत्येवमतिनिर्बन्धं भास्कराराधनं प्रति बहुप्रकारं चकृस्ते तं तं विधिमुपाश्रिताः तथादु यततां तेषां भास्कराराधनं प्रति सुदामा नाम गन्धर्व उपगम्येदमब्रवीद यद्याराधनमिष्टं वो भास्करस्य द्विजातयः तदेतत्प्रियतां येन भानुःप्रीतिमुपैष्यति तस्माद्गुरुविशालाख्यं वनं सिद्धनिषेवितं कामरूपे महाशैले गम्यतां तत्र वै लघु तस्मिन्नाराधनं भानोऽप्रियतां सुसमाहितैः सिद्धक्षेत्रं हितं तत्र सर्वकामानवाप्स्यथ मार्कण्डेय उवाच इति तद्वच श्रुत्वा गत्वा तत्काननं द्विजाः ददृशुर्भास्वतस्तत्र पुण्यमायतनं शुभं तत्रते नियदाहारा वर्णा विप्रादयो द्विज धूपुष्पोपहाराढ्या पूजां चक्रुरतन्द्रिताः पुष्पानुलेपनाद्यैश्च धूपगन्धादिकैस्तथा जप होमान्नदानाद्यं पूजनं ते समाहिताः कुर्वन्तस्तुस्तु वुर्ब्रह्मन्विवस्वन्तं द्विजातयः ब्राह्मणा ऊचुः देवदनवयक्षाणां ग्रहाणां ज्योदिषामपि तेजसाभ्यधिकं देवं व्रजामशरणं रविं दिवि स्थितं च देवेशं द्योदयन्तं समन्ततः वसुधामन्तरिक्षं च व्याप्नुवन्दं मरीचिभिः आदित्यं भास्करं भानुं सवितारं दिवाकरं पूषाणमर्यमाणं च स्वर्भानुं दीप्तदीधीतिं चतुर्युगान्तकालाग्निदुष्प्रेक्ष्यं प्रलयान्तगं योगीश्वरमनन्दं च रक्तम् पीदं सिधासितम् ऋषीणामग्निहोत्रेषु यज्ञदेवेष्वस्थितं व्रजामशरणं देवं तेजोराशिं तमच्युतम् अक्षरं परमं गुह्यं मोक्षद्वारमनुत्तमं छन्दोभिरश्वरूपैश्च सहृद्युक्तैर्विहङ्गमम् उदयास्तमने युक्तं सदा मेरो प्रदक्षिणे अनृतं चऋतं चैव पुण्यतीर्थं पृथग्विधं विश्वस्थितिचिन्त्यं च प्रपन्नास्म प्रभाकरम् यो ब्रह्मा यो महादेवो यो विष्णुर्यः प्रजापतिः वायुराकाशमापश्च पृथिवीगिरिसागराः ग्रहनक्षत्रचन्द्राद्यावानस्पत्यं द्रुमौषधं व्यक्ताव्यक्तेषु भूदेषु धर्माद्धर्मप्रवर्तकः ब्राह्मी माहेश्वरी चैव वैष्णवी चैव ते तनुः त्रिधा यस्य स्वरूपं तु भानोर्भास्वान् प्रसीदतु यस्य सर्वमयस्येदमङ्गभूदं जगत्प्रभोः स नः प्रसीददां भास्वान् जगदां यश्च जीवनम् यस्यैकमक्षरं रूपं प्रभामण्डलदुर्दृशं द्वितीयमैन्दवं सौम्यं स नो भास्वान् प्रसीदतु ताभ्यां च तस्य रूपाभ्यामिदं विश्वं विनिर्मिदम् अग्निशो मम यं भास्वान् स नो मार्कण्डेय उवाच इत्थं स्तुत्या तदा भक्त्या सम्यक् पूजा विधानतः तुतोष भगवान् तास्वां स्त्रिभिर्माश्चैर्द्विजोत्तमा ततः समण्डलादुद्यन्निजबिम्बसमप्रभः अवतीर्य ददौ तेभ्यो दुर्दृशो दर्शनं रविः ततस्ते स्पष्टरूपं तं सवितारमजं जनाः पुलकोत्कम्विनो विप्रा भक्तिनम्राः प्रणेमि नमो नमस्ते स्तु सहस्ररश्मे सर्वस्य केदुस्त्वमशेषकेदुः पादात्वमिद्योऽखिलयज्ञधामध्येयस्तथा योगविदां प्रसीद इति श्रीमार्कण्डेयपुराणे भानुस्तवो नाम षडधिकशततमोऽध्यायः ओ